चाणक्यनीति अध्यायम् टु अनृतं साहसं माया मूर्खत्वं अधिलुब्धता अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः भोज्यं भोजनशक्तिश्च रदिशक्तिर्वराङ्गना विभवो दानशक्तिश्च नाल्पस्य तपःसः फलम् यस्य पुत्रो वशीभूतो भार्याच्छन्दानुगामिनि विभावे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ते ये पितुर्भक्तः स यस्तु पोषकः तन्मित्रं यस्य विश्वाससा भार्या यत्र निर्वृतिः परोक्षे कार्यसन्धारं प्रत्यक्षे प्रियवादिनं वर्जये वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् न विश्वस्येत् कुमित्रे च मित्रे चापि न विश्वसेत् कदाचित् कुपितम् मित्रम् सर्वम् गुह्यम् प्रकाशयेत् मनसा चिन्तितम् कार्यम् वाचा नैव प्रकाशयेत् मन्त्रेण रक्षये गूढम् कार्ये चापि नियोजयेत् कष्टं च खलु मोखत्वं कष्टं च खलु यौवनं कष्टात् कष्टतरं चैव परगेहनिवासनम् शैले शैलेन माणिक्यं मौक्तिकम् न गजे गजे साधवो न सर्वत्र चन्दनं नवने वने वने विविधैः विविधैशीलैर्नियोज्या सततं बुधैः निदिज्ञा शीलसम्पन्ना भवन्ति हा बालान कुपूजिता शु पिता वैरीयाभ्या शोभंद हमसमध्ये बको यथा लाने बखवो दोषास्ताड़े बहवो गुणः तस्मात् पुत्रं च शिष्यं च ताडयेत् न दुलालयेत् वा तदर्धेन तदर्धार्धाक्षरेण वा अवन्ध्यं दिवसम् कुर्यात् दानाध्ययनकर्मभिः न्दावियोगस्वचनापमानम् ऋणस्य शेषं कुनृपस्य सेवा दारिद्रभावो विमुखं च मित्रम् विनाग्निनैते प्रदहन्दिकायम् नदीतीजे चये ये वृक्षाः परगेहेषु कामिनी मन्द्रहीनांश्च राजानशीघ्रं नश्यन्त्यसंशयः बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा बलं वित्तं च वैश्यानां शूद्राणां परिचर्यकम् निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेद गगा वीतफलं वृक्षं भुक्त्वा चाभ्यागदाकृतम् गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकं प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा दुराचारि दुरादृष्टिर्दुरावासी च दुर्जनः यन्मैत्री क्रियते पुम्भिर्नरशीघ्रं विनश्यति समाने शोभदे प्रीतिः राज्ञि सेवा च शोभते वाणिज्यं व्यवहारेषु दिव्यास्त्री स्त्री गृहे ओ